आधारभूते चाधे धृतिरूपे धुरन्धरे ध्रुवे ध्रुवपदे धीरे जगद्धात्रे नभोस्तुते श्रवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे शाक्ताचारप्रिये देवी जगद्धात्री नभोस्तु जयदे जगदानन्दे जगदेकप्रपूजते य सर्वगते दुर्गे जगद्धात्री नमोस्तु ते परमाणुश्वरूपे च जनोकादिश्वरूपिणी जगद्धात्री नवोस्तु सूक्ष्मात् सूक्ष्मरूपे च प्राणापाणादिरूपिणी भावा भावस्वरूपे च जगद्धात्री नवोस्तु कालादिरूपे काले कालाकालविभेदिरे सर्वस्वरूपे सर्वज्ञे जगद्धात्री नमोस्तुते महाविघ्नेमहोषाहे महामायेवरप्रदे प्रपञ्चसारे साध्वीशे जगद्धात्री नभोस्तुते अगम्ये जगता मादे माहेश्वरी वराङ्गरे अशेषरूपे स्थे जगद्धात्री नवोस्ते द्विसप्तकोटिमन्त्राणाम् शक्तिरूपे सनातने सर्वशक्तिस्वरूपे च जगद्धात्री नवो तीर्थयज्ञतपोदार योगसारे जगन्मये तवेव सर्वं सर्वस्थे जगद्धात्री नभोसुते दयार दयारूपे दयादृष्टे दयार्दे दुःखमोचने सर्वपतारिके दुर्गे जगद्धात्री नमोसुते अगम्या धामधामस्थे महायोगी शशित्पुरे अमेव भावपुटस्थे जगद्धात्री नमो सुते जगद्धात्री नमो सुते जगद्धात्री नमो सुते